स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च यस्य चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः इति सन्तोऽनुशासन्ति सज्जनं धर्मिणः सदा भीष्मलोके हि तत्सर्वं वितथं त्वयि दृश्यते ज्ञानवृद्धं च वृद्धञ्च भूयां सङ्केशवं मम अजानत इवाख्यासि संस्तुवन्कौरवाधम गोघ्नः स्त्रीघ्नश्च सन् भीष्म त्वद्वाक्याद्यदि पूज्यते एवम्भूतश्च यो भीष्म कथं संस्तवमर्हति असौमतिमताम् श्रेष्ठो य एष जगतः प्रभुः सम्भावयति चाप्येवम् त्वद्वाक्याच्च जनार्दनः एवमेतत्सर्वमिति तत्सर्वम् वितथम् ध्रुवम् न गाथा गाथिनं शास्ति बहुचेदपि गायति प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा नूनं प्रकृतिरेषा ते जघन्यानात्र संशयः अतिपापीयसी चैषा पाण्डवानामपीष्यते येषामर्च्यतमः कृष्णस्त्वं च ये प्रदर्शकः धर्मवांस्त्वमधर्मज्ञः सताम मार्गादवप्लुतः